भीष्म उवाच विहृत्य सत्यभामा वै सह शच्या सुमध्यमा शच्यापि समनुज्ञातायौ कृष्णनिवेशनम् सम्पूज्यमानस्त्रिदशैर्महर्षिगणसेवितः द्वारकाम् प्रययौ कृष्णो देवलोकादरिन्दमः सोतिपत्य। महाबाहुर्दीर्घमध्वानमच्युतः वर्धमानपुरद्वारमाससादपुरोत्तमम् भीष्म उवाच ताम् पुरीं द्वारकाम् दृष्ट्वा विभुर्नारायणो हरिः हृष्टः सर्वार्थसम्पन्नां प्रवेष्टुमुपचक्रमे सोऽपश्यद्वृक्षषण्डाश्च रम्यनारामजान्बहून् समन्ततो द्वारवत्याम् नानापुष्पफलान्वितान् अर्कचन्द्रप्रतीकाशैर्मेरुकूटनिभैर्गृहैः द्वारकारचिता रम्यैः सुकृता विश्वकर्मणा